श्रीहरे नमः अथ चतुर्विंशोऽध्यायः तस्यां विदर्पो जनयेत् पुत्रौ नाम्नाकुसक्रतो तृतीयं रोमबाधं च विदर्पकुलनन्दनं रोमबाधशुतो भब्रोर्भ्रो कृतिरजायत उसिकस्तत्सुतस्तस्मात् चेतिश्चैत्यादयो नृपत् कृतस्य कुन्तिः पुत्रोऽभूद् दृष्टिस्तस्यातनिर्वृतिः ततो दासार्हो नाम्नाभूत् तस्य व्योमसुतस्ततः जीमूतो विकृतिस्तस्य यस्य भीमरतः ततो न वरतः पुत्रो जातो दशरथस्ततः करम्बी सकुनेः पुत्रो देवरातस्तधात्मजः देवक्षत्रस्ततस्तस्य मधुकुरु वसाधनुः पुरुहोत्रस्त्वनो तस्यायु भजमानो भजेर्दिव्य वृष्णेर्देवामृदोऽधकः सात्वतस्य सुता सप्तमहाभोजस्य मारीष भजमानस्य निं लोचे दृष्टिरेव च एकस्यामात्मजां पत्यामन्यस्यां छत्रयः सदा सहस्राजेत सहस्राजेत् अयुता जिदिति प्रभो भभ्रोर्देवावृतस्सुतस्तयो श्लोकौ पठन्त्यमो यथैव शृणुमो दूरात् सम्पत्यामस्तथान्तिका भभ्रुश्रेष्ठो मनुष्याणां देवे देवावृतैस्समः पुरुषा पञ्चषष्टिश्च सहस्राणि चाष्ट च ये मृतत्वमनुप्राप्ता भभ्रोर्देवावृदादभि महाभोजोऽधर्मात्मा भोजो आसंस्तदन्वये वृष्णे सुमित्रः पुत्रोऽभू युधाजिच्च परन्तप तिनिस्तस्या निम्नो भूतनमित्रतः सत्राजितप्रसेनश्च निम्नस्याप्यासतुः सुतौ अनमित्रसुतो योऽन्य सिनिस्तस्यात सत्यकः युयुधानसात्यकिर्मै जयस्तस्य गुणिस्ततः युगन्तरो न मित्रस्य वृष्णिपुत्रोपरस्ततः स्वपल्कश्चित्ररथस्यां गान्धिन्यां च स्वपल्कतः अक्रूरप्रमुखा आसन् पुत्रा द्वादशविश्रुताः आसङ्गः सारमेयश्च मृदुरो मृदुविद्गिरिहे म्रुदु धर्मवृद्धसुकर्मा च सत्कृत्नो गन्तमाधश्च प्रतिभाहुश्च द्वातस तेषां स्वसासु क्षीराज्ञा द्वावक्रूरसुतावपि देवभानुपदेवश्च तथा चित्ररतात्मजाः प्रतुर्विधूरताद्याश्च भगवो कुकुरो कुक्कुरो भजमानश्च सुचिक्कम्बळबर्हिषः कुक्कुरस्य सुतो भग्नेर्विलो मातनयस्ततः कपोतरो मातस्यानु सखायस्य च तम्बुरुः अन्धगोधुन्दुभिस्तस्माद्धरित्योतः पुनर्वसुः तस्याहुकश्चाहुकी च कन्या चैवाहुकात्मजौ देवकश्चोग्रसेनश्च चत्वारो देवकात्मजाः देववानुपदेवश्च सुदेवो देववर्धनः तेषां स्वसारसप्ता सन् धृतदेवादयोन्रप शान्तिदेवबुभदेवा च श्रीदेवादेवरक्षिता सहदेवादेवकी च वसुदेववुवाहताः कंस सुनामान्यग्रोथ कङ्कशङ्कुत्सुखुस्तता राष्ट्रपालोतसृष्टिश्च तुष्टिमान उग्रसेन यः कंसा कंसवती कङ्का सुरभूराष्ट्रपालिका उग्रस्सेन दुहितरो वासुदेवानुजस्त्रियः सूरोऽभि दूरदातासीद् भजमानसुतस्ततः सिनिस्तस्मात् भोजो हृदि कस्तत्सुतो मतः देवबाहू स दधनु कृतवर्मेति तत्सुताः देवमीढस्य सूरस्य मारिषा तस्यां स जनयामास दसपुत्रान् वासुदेवं देवभागम् देवश्रवसमानकं सृज्जयं श्यामकं कङ्कं समीकं वत्सकं मृकं देवधुन्दुभयोनेधो आनका यस्य जन्मनि वसुदेवं हरे स्थानं भतन्ति आनकधुन्दुभिं वृथा च श्रुतदेवा च श्रुतकीर्तिः श्रुतश्रवाः राजादिदेवी चैतेषां भगिन्यः पञ्चकन्यकाः कुन्ते शक्युपिता शूरो सापदुर्वाससो विद्यां देवकूतिं प्रतोषितात् तस्या वीर्यपरीक्षार्थम् आजुहावरवीं शुचिं तदैवोपागतं वीक्षविस्मितमानसा प्रत्ययार्तं प्रयुक्तोमे, मे याहि देव क्षमस्व मे अमोघं दर्शनं देवीम् आदित्से त्वयि चात्मजं दुष्येत कर्ताहं ते सुमद्य मे इति गर्भं सूर्यो दिवं गतः सद्यः कुमारसं जज्ञे द्वितीय इव भास्करः तं साध्य जन्नधीतो ये कृल्लोकस्य बिव्यती प्रपितामहस्तामुवाह पाण्डोर्वै सत्यविक्रमः श्रुतदेवां तुकारुषा वृद्धशर्मा समग्रहीत् यस्यामबोधन्तवक्त्र ऋषिसप्तोदिते सुतः कैकेयो दृष्टकेतुश्च श्रुतकीर्तिमभिन्दत सन्दर्दनाधयस्तस्य पञ्चासन् कैकया सुताः राजातिदेव्यामाभन्त्यो जयसेनो जनिष्ठः दमघोषश्चेति राज श्रुतश्रवसमग्रही शिशुपालः सुतसस्तस्यां कतितस्तस्य सम्भवः देवभागस्य कंसायां चित्रकेतुबृहद् कंसवत्यां देवश्रवसन् सुवीरयिषु मांस्तथा गङ्गायामानकाज्जातः सत्यजित्पुरुजित्तथा शृञ्जयो राष्ट्रपाल्यां च वृषधुर्मषणादिकान् हरिकेश हिरण्याक्षो सुरभूम्यां च श्यामकः मृगातीन् वत्सकत्सतां तक्षपुष्करसालादीन् दुर्वर्ष्यामृक आधतेन् सुमित्रार्जुनपालादीन् समीका तु सुधामिनी कङ्कश्च कर्णिकायां वैरुतधामजयावपि पौरवीरोहिणी भद्रां मतिरारोचना देवकी प्रमुखा आसन् पत्न्य आनकधुन्दुभेः बलं गतं शारणं च दुर्मतं विपुलं ध्रुवं वासुदेवस्तुरोहिण्यां कृताधिनुतपादयत् सुभद्रो भद्रवाहश्च दुर्मतो भद्र एव च पौरव्यास्तनया ह्येते भूतात्याद्वादशाभवन द्वादशा भवन् नन्दोपनन्दकृतक शूराद्यामतिरात्मजाः कौसल्याकेशिनं न्त्वेकमसूतकुलनन्दनं रोचनायामतो जाता हस्त हेमाङ्गधादयः इळायाम्बुर्वल्कादीन् यतु मुख्या न विप्रोष्टो धृतदेवायां मेक आग्नगधुन्दुबेहे शान्तिदेवात्मजा राजन् श्रमप्रतिश्रुतादयः राजानकल्पवर्षाद्याम् उभदेवासुता वसुहंसु संसाध्या श्रीदेवायास्तु षट्सुताः देवरशितया लब्धा नवचात्रगधादयः वसुदेवसुता देवया पुरुविसृतमुख्यांस्तु साक्षाद्धर्मो वसूनिव वसुधेवस्तु देवक्याम् अष्टपुत्रा न जीजन कीर्तिमन्तं सुशेषणं च भद्रसेनमुदारदीहे रुजं संवर्धनं भद्रं सङ्कर्षणमहीश्वरम् अष्टमस्तु स्वयमेव हरिः किल सुभद्रा च महाभागं तव राजन्पितामही यदा यदेहधर्मस्य क्षयोवृद्धिश्च पाप्मनः तदा तु भगवानीश आत्मानं सृजते हरिः न ह यस्य जन्मनो हेतु आत्ममायां विनेशस्य परस्य द्रष्टुरात्मनः यन्माया चेष्टितं पुंस स्थित्युत्पद्यव्ययायै अनुग्रहस्तन्निवृत्ते आत्मलाभाय चेष्यते अक्षौहिणीनां पदिभीम् अभारया कृत्यम कर्मा मनसापि सुर सह संकर्षण भगवान्मधुसूदन कलौ जनिष्य दुखशोकतमोनुध अनुग्रहाय भक्तानां स्वपुण्यं यदनोद्यशः यस्मिन् सत्कर्णपीयूषे यशस्तीर्थवरे सकृत् श्रोद्राञ्जलि उपस्पृश्य धुनुते कर्मवासनां भोजवृष्यन्तघ मधुसूरसेन दसार्हकैः श्लाघनीये हि तश्वत् कुरु सृञ्जयपाण्डुभिः दिग्धस्मितेषिधोदारैर्वाक्यैर्विक्रमलीलया नृलोकं रमायामास मूर्त्या सर्वागरं यया यस्या भ्राजत्कपोलसुभकं सविलासहासं नित्योत्सवं न तत्रुपोर्दृशि बिबिभन्त्यो नार्यो नारस्य मुतिताः कुपितानि मेश्च जातो गतः पिदृगृहाद् व्रजमेति कृतोरुदारः उत्पाद्य तेषु पुरुषस्क्रतुपीसमीजे आत्मानम् आत्मनिगमं प्रतयन् जनेषु पृथ्व्याः स वै गुरुपरं शपयन् कुरूणाम् अन्तः समुत्तकलिना दृष्ट्या विधूय विजये जयमुद्विघोष्य प्राश्चोद्धवाय च परं समगात् स्वधाम इति श्रीमद्भगवते महापुराणे वैयासिक्याम् अष्टादश साहस्यां पारमहंस्यां संहितायां नवमस्तन्ते श्रीसूर्यसोमवंशानुकीर्तने यदुवंशानुकीर्तनं नाम चतुर्विंशोऽध्यायः इति नवमस्कन्धस्समाप्तः हरिवों तस्तत् सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहराजकी जय